अथ सप्तत्रिंशोऽध्यायः वैशम्पायन उवाच कस्यचित्त्वथ धर्मराजो युधिष्ठिरः संस्मृत्यमुनिसन्देशमिदं वचनमब्रवीत् विविक्ते विदितप्रज्ञमर्जुनम् पुरुषर्षभ सान्त्वपूर्वम् स्मितं कृत्वा पाणिना परिसंस्पृशन् समुहूर्तमिव ध्यात्वा वनवासमरिन्दमः धनञ्जयम् धर्मराजो रहसीदमुवाच युधिष्ठिर उवाच भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत धनुर्वेदश्चतुष्पाद एतेष्वद्यप्रतिष्ठितः दैवम् ब्राह्मम् मानुषम् च सयत्नम् सचिकित्सितम् सर्वास्त्राणाम् प्रयोगम् च अभिजानन्ति कृत्स्नशः ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः संविभक्ताश्चतुष्टाश्च गुरुवत्तेषु वर्तते सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा आचार्यामानितास्तुष्टाः शान्तिं व्यवहरन्त्युत शक्तिम् नापयिष्यन्ति ते काले प्रतिपूजिताः अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा सग्रामनगरा पार्थ पार्थससागरवनाकरा भवानेव प्रियोऽस्माकम् त्वयि भारसमाहितः अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिन्दम कृष्णद्वैपायनात्तातगृहीतोपनिषन्मया तया प्रयुक्तया सम्यग्जगत् सर्वं प्रकाशते तेन त्वम् ब्रह्मणा देवतानाम् यथा कालम् प्रतिपालय तपसा योजयात्मानमुग्रेण भरतर्षभ धनुष्मान् कवची खड्गी मुनिः साधुव्रते स्थितः दिशम् इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जया व्रत्राद्भीतैर्बलम् देवैस्तदा शक्रे समर्पितम्